प्रथमः योग्यः पुरातनकाले कश्चित् आसीत् तस्य त्रयः पुत्राः आसन् त्रयः युवकाः एकदा महाराजः चिन्तामग्नः सन् उपविष्टः आसीत् तदा तत्र आगतः मुख्यसचिवः तं दृष्ट्वा समीपं गत्वा पृष्टवान् प्रभो किमभवत् भवान् अतीव चिन्तामग्नः इति भाति किं कारणं चिन्तायाः इति महाराजः अवदत् सचिव मम तु वयः अतिक्रान्तं मम मरणानन्तरं त्रिषु पुत्रेषु कः अस्य राज्यस्य पालनं कुर्यात् तेषु कः अत्यन्तं समर्थः अस्ति अहं कस्मै एतत् उत्तरदायित्वं ददामि एषा एव चिन्ता मम इति तदा मुख्यसचिवः उक्तवान् महाराज चिन्तां न करोतु तन्निमित्तम् अहम् एकम् उपायं सूचयामि त्रीन् अपि पुत्रान् आहूय वदतु भवन्तः अस्य राज्यस्य यं एकं प्रजानां जनं तोषयित्वा आनयन्तु इति ते तत् कार्यं कथं सम्पादयन्ति इत्येतस्य आधारेण तेषु कथमः योग्यः इति निर्णयं करिष्यामः महा इति महाराजः अङ्गीकृतवान् अपरस्मिन् दिने महाराजः पुत्रान् आहूय उक्तवान् राजवासिनां सन्तृप्तिः एव अस्माकं लक्ष्यम् तदा महाराजन राज्यपाल करनीय अतः अद्ह गजाजन एक तोषय तनय परीक्षायाँ यहाँ विजेय बस चयन भविष्य राज्यपाल पुत्र तत ग अनन्तरदिने ते त्रयः अपि एकैकं प्रजाजनम् आत्मना सः राजसभाम् आनीतवन्तः महाराजः तेषु प्रथमं पृष्टवान् किं भवान् सन्तृप्तः अस्ति राजकुमारेण इति सः उक्तवान् आम् महाराज युवराजः मह्यं शतं सुवर्णनानकानि दत्तवान् अहं तु सन्तुष्टः तदापि किं तदापि अग्रे कथयतु महाराजः उक्तवान् यदि सः सहस्रं नाणकानि अदास्यत् तर्हि इतोऽपि सन्तुष्टः अभविष्यम् सः उक्तवान् द्वितीयपुत्रेण आनीतं प्रजाजनं विचारितवान् महाराजः सः उक्तवान् महाप्रभो राजकुमारः मह्यं किञ्चित् भूमिं दत्तवान् तेन अहं सन्तुष्टः एव किन्तु यत्रसा सा भूमिः अस्ति तस्याः समीपे एव जलसम्मुद्दः प्रदेशः अस्ति तमपि यदि मह्यम् अदास्यत् तर्हि इतोपि उत्तमम् अभविष्यत् इति महाराजः असन्तुष्टः जातः सः तृतीयपुत्रेण आनीतं जनं पृष्टवान् परन्तु सः उक्तवान् प्रभो अहं तु नितरां सन्तृप्तः अस्मि इति विस्मितः महाराजः पुनः पृष्टवान् कथम् राजकुमारः भवते किं दत्तवान् इति स उक्तवान् प्रभो कुमारः मह्यं षड्रसोपेतं रुचिकरं भोजनं दत्तवान् जीवने प्रथमवारं मया तादृशं भोजनं प्राप्तं तेनाहं अहं पूर्णतः तृप्तः अस्मि इति तस्य वचनं श्रुत्वा महाराजः सन्तुष्टः जातः सः तृतीयपुत्राय एव राज्यं दत्तवान् अन् उद्द्य उक्तवान, हे पुत्रो राज्य निर्वाह सामर्थ्यम कवल न पर्याप्त अभी तो समयचिता बुद्धि अच्छी आवश्यकी एतव पीशील्य अं तस्में राज्य दत्वान्स्व तस््यपाल राज सहाय करता